गरुडपुराणम् ब्रह्मकाण्डम् मोक्षकाण्डम् अध्यायम् एय्टीन् श्रीकृष्ण उवाच अथानन्तरजान्वक्ष्ये शृणुपक्षीन्द्रसप्तम शृणुतान् सावधानेन श्रुत्वा तानवधारय पुरुषाख्यविरिञ्जानुजातशेषो महाबलः हरे रमायाश्च यस्य स्वस्मिन्निद्रां प्रकुर्वदः शयनार्थमभूदेश तेन कृत्यं हरेर्नदु सर्वदा हरिदासोऽहं सर्वदा हरिपूजकः हरे सदा नमामि त्वां बहुजन्मनि जन्मनि एवम्बुद्ध्वा दुगरुडो। ्यभूच्च शयनं हरेखे सूत्रनाम सूत्रनाम्नस्तदा वायोः सदायं विनदा सुद कालनामाजगरुढो वाहनार्थं हरेरभूद तदो महत्तत्वतनोर्विरिञ्च तु खगेश्वर अहङ्कारात्मको रुद्रसमभूत् सोविदुं हरिम् त्रय महाभाग महाभागपरस्परसमास्मृताः गायत्री भारतीभ्याम् ते त्रयशतगुणावराः शेषस्य एव विज्ञेयो भक्तो नारायणस्य च विष्णोर्वायोरनन्दस्य त्रिभिरांशैर्युधः सदा सुमित्रांशोदशरदादो यो ल ष्मणखग सोऽपि शेषस्तु विज्ञेयो वायु अनन्तांश संयुधः रामस्य सेवां कर्तुं सासीदा भूम्यां खगादिव बलभद्रस्तु रोहिण्यां वास्तु देवादभूत्खगा सोऽयमेपदुविज्ञेयस्त्वं षद्वयसमन्वितः आविष्टशुक्लकृष्णे हरिणा रोहिणी सुदः त्रयये देमहाभागावताराफणिन स्मृताः न वीन्द्रावतारोऽस्ति भूम्यां चाज्ञा तथा हरेः रुद्रावतारान् कं ता शृणुत्वं समाहितः योऽहङ्कारात्मको रुद्रस्य एव भूद्खगेश्वर सदा शिव इति त्वाख्या मवापसविनाशकः तमोऽभिमानी स शिवत्वा सदा शिवः कपालमालामशिवां सदा धारयदे यदः अधः सदा शिवो ज्ञेयो न च भागवतः शिवः सर्वान् हरते सदा हरः हर्याज्ञया सदालोकान्विषया सक्तचेदसः विमुखान् गुरुदे यस्माद्विष्णोस्तस्मात् सदा शिवः कदाचिदसुरावेशाद्विरुद्धं गुरुदे हरः अधः सदा शिवो ज्ञेयो न च भागवतः शिवः सोऽयं श्मशानवसतिं कर्तु मैथ्यद्यदो हरः अधिवो ज्ञेयो न च पागवधः शिवः दशवर्षम् तपः कर्तुं रुद्रावतारो विज्ञेयो ज्ञानार्थमभवद्भुवि अत्रिपत्न्यनुसूयायाम् यज्ञे रुद्रो महातपाः दुर्वासास्तु स सा विज्ञेयो मानभङ्गाय भूभृदा द्रोणाज्जादो रुद्र एव प्रकीर्तितः ईशानकोणे संस्थितो यस्तु रुद्रो ह्यवाप वै वामदेवेदि स्ववामभागे संस्थितं चैव वायुस्तं योग्यभक्तं सेवदे सर्वदैव अधो रुद्रो वाम देवेदि संज्ञा मवाप शिष्टत्वमधोत्तमत्वम् कालात्मकत्वं च बलात्मकत्वमवापरुद्रो न तु सुन्दरत्वतः सदा रुद्रो त्रिपुरस्तांश्च दैत्यान्विष्णुदुहो कन्दुकामो महात्मा अघोररूपं धृपवान् रुद्र येव ततस्त्वकोरेदि स आभसंज्ञाम् सेवां कर्तुं त्वच्छिदो दैत्यशङ्कान् किञ्चित् कालं तपःसाष्यमानान् वरान् दातुं सद्य एवाभिजातः सद्यो जातेत्येव संज्ञामवाप उपुत्रस्तु और्वश्च रुद्र एव प्रगीर्विदः रुतो रोदनवाचकः ऊरुद्रो ह्यदप्रोक्तस्तदपुत्रश्चौवसंज्ञकः रुदम् उर्वरीदं कर्दो मौर्वो भू रुद्रये वसः गरुड उवाच रोदनं गुरुदेकस्मा दुरुसंज्ञो रुदं मुर्वचितं कस्मात् कुरुदे और्वाकारकः ये दद्विस्तार्यमेब्रूहि पौत्राय तव सुव्रता इत्युक्तस्तेन स हरिरुवाच करुणानिधिः श्रीकृष्ण उवाच दृष्ट्वा स्वबिम्बं सुगुणैस्तु पूर्णं नदपादपद्मम् श्रीब्रह्मशेषैर्जिष्णुकामैस्तदान्यैर्भारत्या वै स्वस्ति पैश्चापि नित्यम् दृष्ट्वा हरिम् पुलकाङ्गस्तु रुध्रः सभाष्पचक्षूरुद्धखण्डश्च हृष्टः सर्वदैव पादारविन्दे सुनखैर्विभूषिदे दृष्टे मया केन पुण्येन देव दृष्ट्वा दृष्ट्वा पादपद्मम् मुरारे पुनः पुनारुद्धकण्टो बभूव रुरोदरुद्रोभयकम्पिदाङ्घः कथं पुनर्दर्शनं मे प्रभो स्याद मुकुन्दनारायणविश्वमूर्ते वागिन्द्रियेणस्तवनं मे कथं स्याद् सर्वदा पापयुक्तं तदा मद्वाक् सर्वदा पापयुक्ता मद्दर्शनं सर्वदा स्त्रीषु सकृतमभूच्यते दर्शनं मे ह्यसक्तम् असकृतदा पुत्रधारादिकानां सम्यक् शक्तिस्तवने नास्ति विष्णोः विष्णुस्तुतौ नावकाशोऽस्ति वाचो दृष्टोऽहं त्वं केन पुण्येन देव अनन्तकर्णेश सुचन्द्रसंज्ञ श्रोत्रेण नित्यं न कदा श्रुतान्ति श्रुधा मया बहुधा लोकवार्ता दृष्टो मया त्वं केन दृष्ट्वा दृष्ट्वा पादपीठं हरेश्च पुनः पुनरुद्धं कण्ठो बभूव रुरोदरुद्रोभयकम्पिताङ्गकथं पुनः श्रवणं स्यात्कथायाः त्वमीशवैकुण्ठसुवायुः संज्ञस्त्वतर्पितं गन्धपुष्पादिकं च सदा नलिप्तम् च भुजैर्विलिप्तम् तन्मुत्र विष्टादिमकर्दमाम्बुभिः स्त्रीणाम् कुचोदैश्च कचोदकैश्च कक्षोदकैर्गात्रजलैर्मुकुन्द अनर्पितैर्वस्त्रगन्धादिकैश्च दृष्टो मया केन पुण्येन देव स्पृष्टा स्पृष्ट्वा हरिनिर्माल्यगन्धम् पुनः पुनारुद्धखण्डो पुना बभूव रुरोधरुद्रोभयकम्पिताङ्गकथम् पुनः स्पर्शनम् स्यात् सदा मे नृसिंहना सास्तिदनासि केशमन्नाशया क्वापि सुपद्मसौरभम् नाख्रादमिद्धम् पुनराह्रादमे वह्यनर्थम् गन्धपुष्पादिकम् च सुनासिकं सुष्ठु दन्तं केन पुण्येन देवा। ख्रात्वा ख्रात्वा विष्णु निर्माल्यगन्धं पुनः पुना, पुना रुद्धकण्ठो बभूव रुरोदरुद्रोभयकं पिताङ्गो जिघ्रामि निर्माल्यमिदं कथं ते जिह्वास्थितो जिह्वासंज्ञो मुरारे जिह्वेन्द्रियेणापि तथार्पितं च नैवेद्यशेषं तुलसीभिमिश्रितं विशेषदपादजलेन सिकृतं यो नास्ति पुरदो मुरारे प्राप्नोति यज्ञायुधकोटिपुण्यं एतादृशं तव नैवेद्यशेषं न वै सर्वदादित्यरूपम् अनर्पिदं तव देवस्य विष्णोर्भुक्तं मया बहुवारम् मुकुन्द पादारविन्देनार्पितम् भक्ष्यभोज्यम् दृष्टो मया केन देव भुक्त्वा भुक्त्वा हरिन्नैरवेद्यजातम् जादं त्वदीयम् रमया लालितम् च द्यो भुवाश्रयं तव मूर्धानमाखुकिरीडयुक्तं कुडिलैः कुन्तलैश्च अनेकजन्मार्जितपुण्यसञ्चय्यै दृष्टं मया सज्जनसङ्गमाच्च अनेकजन्मार्जितपापसञ्चय्यैरदर्शनं यास्यति देवदेव एवं सुभक्त्या चरुरोदरुद्रो दृष्ट्वा हरिम् गुना, सर्वगुणैः सम्पूर्णं पादारविन्दं तव विश्वमूर्ते योगीश्वरैहृदये सङ्गृहीतं दृष्टं मया दयया वासुदेवद्रक्ष्ये कथं पुनरिद्धं रुरोद दृष्टं मया त्वरि वले भविनाशिशङ्खचक्रादिकैस्त्रि जगतापि च देवपूर्णम् यदादृशं त्वदुदरं च कथं रमेशद्रक्ष्ये पुनः पुनरकं त्विधि सम्बुरोद आनन्दपूर्णनखपूर्णसुखेशपूर्णलोमादिपूर्णगुणपूर्णसुखोणपूर्णं पक्षस्थलं तव विभोस्तु विशालभूतं सद्भूषणं विमलकौस्तुभशोऽभिलक्ष्म्या सुकोमलं श्रीतुलस्यास्तदैव सुपुष्पिदं चन्दनैश्चर्चितं च यदादृशं तव वक्षस्थलं च दृष्टं मया तव कारुण्यदृष्ट्या पुनः स्यादेवं रुद्रः स च सम्प्राप्य रुद्रस्तत्पुत्रो भूदौर्व संज्ञ एव यस्माद् रुद्रं चौर्वरितं वै चकार तस्मात् बभूव और्वस्तु लोकान् मोक्षयोग्यांश्च दृष्ट्वा ह्यत्यन्तं वै विषयेष्वेव निष्ठान् तुवदैव चौर्वो विष्णुपादारविन्दं स्मृत्वा स्मृदारुद्धखण्डो बभूव ते पापिष्टा पापरूपान् भजन्दो दिने दिने दुर्विषयान् कदिन्द्रियैः कदा चैतान् हेयबुद्ध्या विमुञ्चेन जाने कञ्चेदि सम्यग् गुरोध ये देहि मूर्खाविषयानार्थलब्ध्यै कुर्वन्ति परमादरेणा परमादरेण कदिन्द्रियार्थं हि धनादिकं च च सर्वे विषयेषु निष्ठाः तन्मायया मोखितान्नष्टबुद्धिन् कदा चैतान् मुञ्जस्ये विश्वमूर्ते स्मृत्वा स्मृत्वा वासुदेवस्य माया रुरोद चौर्वो काय कम्पिताङ्गः अतीवकष्टेन जलोकवृत्त्या श्रुदा दैन्यं स्वीय कार्यं विहाय अतीव दैन्येन धनादिकं च सम्पाद्य सर्वेपि सुपापशीलाः कष्टार्जितं द्रव्यधनादिकं च त्यजन्ति सर्वे पशवो व्यर्थमेव सत्पात्रभूते विष्णुबुद्ध्या कदा वित्यजन्ति नयिते मायया वै मुरारेः येषामायुर्व्यर्थमाहुर्महान्धकथं नष्टा इति सम्यग्गुरोद येषामायुर्व्यर्थमेवं गतं च येषां दृष्ट्वा यौवनं तु ध्रुवं च स्कन्धस्थमृत्युर्हसदे कृष्णविष्णोत्तं नैव वै न जानन्ति विमूढ चेदशः गृहं मदीयं शतवर्षं च जीवेत् पुत्र मदीया शवत शतवर्षं तथैव अहं च जीवे शतवर्षं सुखेन मदीय भार्याभिसुलक्षणाश्चे गावश्च मे सन्ति स दुःखपूर्णामित्राणि मे सन्ति मुदाहियुक्ताः दास्ये सुदं वारणार्थं तु वध्वैपुत्रीं विवाहार्थमहं ददामि दास्ये चाहं सत्सुपुत्रीं धनं वा दास्ये चाहं धनिकेष्वेव नित्यम् अदृष्टशून्यान् भगवान् वासुदेवो दृष्ट्वा दृष्ट्वा हसदे सर्वदैव नाहं करिष्ये श्रवणं कथायामद्भाग्यनाशश्च भविष्यतीति नासंहरिं पूजयिष्ये सदैवपुत्रादिनाशश्च भविष्यतीति काले काले दिष्टनामाखरिस्तु फलप्रदो वासुदेवोऽखिलस्य यदा दृश्यान्मूर्खजनांश्च दृष्ट्वा रुरोदचौर्वो वासुदेवैकनिष्ठः अधस्तौर्वो रुद्ररूपी खगेन्द्रजानीहि नित्यं कृष्णसुशिक्षितार्थः यदा सदी दक्षपुत्री खगेन्द्रदक्षाध्वरे स्वशरीरं विसृज्य जज्ञे पुनर्मेनकायां हिमाद्रेस्तदा रुद्रस्तौर्वसंज्ञामवाप ऊर्ध्वरेदा भवेत्युक्त्वा ऊर्ध्वरेदा बभूवः पाणिग्राहं रुद्रदेवो महात्मा यदा हिमाध्रिर्कन्यकायाश्चकार तस्यां परं लम्पडः सम्बभूव अतो रुद्रः परः संज्ञामवाप सदाशिवाद्यादशरुद्रभ्रातरः सौमित्रेयो हौहिणेयस्त्रयश्च समायेते मोक्षकाले श्रुतौ जशतैर्गुणैर्न्यूनभूताश्च ताभ्याम् गरुड उवाच आनन्दनिर्णयम् ब्रूहि कृष्णपूर्णदयानिखे निर्णेतुम् ज्ञानिनाम् यद्वज्ञापनार्थम् तथा मम ब्रूहि शिष्यायदयया ऊर्ध्वतुम् माञ्ज सर्वदा पूर्णकामस्य ते कृष्णका स्पृहा विद्यते प्रभो एवमुक्तो कृषिकेश्य पक्षीशेन महात्मना उवाच कृपया कृष्णप्रसन्नकमलेक्षणः श्रीकृष्ण उवाच कायत्र्याश्च सदानन्दयेकानन्दस्तु वेदसः एतादृश्य सदानन्दो ब्रह्मण परिकीर्तितः शेषादेश्च सदानन्दः सरस्वत्या खगोत्तम यगानन्दस्तु विज्ञेयो भारत्या विनदासुद एवं तु निर्णयो ज्ञेय आनन्दस्य सदा खग एवमुक्तं मया इति श्रीकारूडे महापुराणे ब्रह्मकाण्डे रुद्ररोदन यत्त्वाननन्तानन्दतारतम्यनिरूपणम् नामाष्टादशोऽध्यायः ओम् अध्यायम् नैन्टीन् गरुड उवाच त्वयोक्तम् कृष्णगोविन्दरुद्राच्छदगुणादपि ब्रह्माणि भारती चोभे अधिके देवसत्तम मया श्रुतं विरिञ्जेन उमापर्यन्तमेव च अनन्तां शैर्विहीनत्वं विरिञ्जोक्तं सुराधिप सहस्रां शैर्विहीनत्वं त्वयोक्तं कृष्णमाधव सर्वेषाम् चैव पूर्वेषामवेक्ष्यैव हरे विभो ज्ञानानन्दबलादीनां वायुपर्यन्तमेव च सहस्रांशैर्विहीनत्वम् ज्ञानादीनां महेश्वर निर्णयं ब्रूहि गोविन्दसर्वज्ञोऽसिनसंशयः गरुडेनैव मुक्तस्तु वासुदेवो ब्रवीध्रुवं श्रीकृष्ण उवाच आनन्दां शैर्विहीनत्वमपेक्ष्यैव खगाधिप उत्तरेषामुत्तरेषां योगा देवमिति स्फुटम् परिमाणे शदगुणे आनन्दे स्फुटतावशाद अनन्दगुणवत्त्वं च ब्रह्मणा समुदीरितं सहस्रगुणितत्वं च वायुना समुदीरितम् यथा नन्ते तथा ज्ञाने विष्णौ भक्तौ बलाधिके सर्वे गुणैषदगुणाक्रमेणोक्तानुतेऽखिलाः भारत्याश्च शतं ज्ञानं सुखं भक्त्रिबलाधिके एवं ज्ञानं सुविज्ञेयं मारुतेस्तु बलाधिकं एवं ज्ञानं शतं ज्ञेयं मारुते नात्र भारत्याश्च शतं ज्ञानं बलं च समुदाहृतम् एवमेव च वायोश्च ज्ञानं चैवमिति स्फुटं यथा दीपाश्च दगुणा अग्निज्वाला न दीपवद सूर्यवद यथैव सूर्याद्विगुणश्चन्द्रो नैव भवेद आनन्दतारतम्यं च यथोक्तं तु मया ध तथैव विजानामि मयि स्थितान् गुणान् सर्वैर्विशेषैश्च खगेन्द्रसंयुगान् सुसूक्ष्मरूपांश्च सदा खगेन्द्रमयाप्यदृष्टो नास्ति नास्त्येव कश्चिद् सर्वावतारेष्वपि विद्यमानं हरिं विजानादिरमापि देवी हरेर्गुणान् सर्वविशेषसंयुतान्नखण्डरूपान् सा विजानादिदेवी सुक्ष्मरूपान् सा विजानादिदेवी ब्रह्मादिभ्यो मत्प्रसादाधिकं च स्वात्मस्वरूपं प्रविजानादिदेवी सुसूक्ष्मरूपं सुविशेषैश्च युक्तं स्वान्यम् प्रपञ्चम् प्रविजानादिलक्ष्मीस्तदाप्यशेषै सुविशेषैश्च युक्तं ब्रह्मामि पश्ये ब्रह्मापि पश्येत् सर्वगं वासुदेवं वाय्वादिभ्यो ह्यधिकान् सद्गुणांश्च श्रोत्रं न जानादि हरेर्गुणांश्च सुसूक्ष्मरूपांश्च विशेषसंयुधान् स्पष्टस्वरूपेण स्पस्ट, यथा विदुसुरामुक्त्वा ब्रह्माणं न तदा तेऽप्यमुक्ताः स्वात्मानमन्यच्च तदा विजानादिविधिश्च मारुदः विजानादि हरे स्वयं स्वयम्भुवो नैव तावद्विशेषान् त्रैगुण्यरूपापरदसदैव पश्येद्विष्णुं कृष्णरूपं खगेन्द्र शेषो दैस्य सर्वे तमो मात्रे प्रविजानन्ति संस्थम् वाणी दृष्टान् सविशेषान् गुणांस्ते जानन्दिनो सत्यमेवोक्तमङ्ग उमा सुपर्णा वाजुणी चेदि त्रिस्सह सहैव तत् प्रविजानन्दिसुस्तम् अरेर्विशेषानरुद्र दृष्टान् खगेन्द्रजानन्दिनैदा क्वा विदेशे च काले इन्द्रादय प्रविजानन्तिवीन्द्र अहङ्कारे व्याप्तरूपं हरिं च दक्षाद्या वै बुद्धितत्वे स्थितं तं जानन्ति दे सोम सूर्यादयश्च विष्णुं हरिं भूततत्त्वे स्थितं च ये चान्येज प्रविजानन्ति नित्यम् अन्ये च पश्यन्ति यथा स्वयोग्यमण्डान्तरस्थम् हरिरूपम् खगेन्द्र केचित् प्रपश्यन्ति हरेश्च रूपम् त्वदीयहृत्स्थम् हृदि केचित् सदैव एवम् प्रकारम् प्रविजानीहि वीन्द्रह्यदो मम भार्या षडेदाः रुक्मिण्याद्या षण्महिष्यो मम श्रीर्नीलाचया मम भार्या खगेन्द्र सर्गे पूर्वस्मिन् कव्यवाकस्य पुत्री तास्ता भजे सद्य एवाविशेषाद कन्यैव सा कृष्णपत्नी जकामांस्तां तान् भजेन्मनसा चिन्तितांश्च अदीव यत्नं कव्यवाकं खगेन्द्र पिदृष्वेक सर्वदा वैचकार तथैव स नैव यतस्तु सा कृष्ण निष्ठैकचित्ता तदा ब्रवीत् कव्यवाहश्च पुत्रीम् पदीम् किमर्थम् नेच्छसि मूढबुद्धे तदा ब्रवीत् कव्यवाहम् च पुत्री हरिम् विना सर्वगुणोपपन्ने जन्मन्यस्मिन् भर्तृदानास्ति देव यदो भर्ता हरिरे वै ग एव यतो लोके सुत्रियः सर्व एव सन्धाज्ञेया विधवाश्चेहि अनादि नित्यम् अनादिनित्यं सु, मोक्षदं कामदं च यदादृशं न सर्वास्ता वै सर्वदैव निमित्तभूतं बर्दृरूपं च जीवं दैवोपेदं हरिभक्त्या विहीनम् सुकश्मलं नवरन्ध्रैभ्रवन्तं दुर्गन्धयुक्तम् सर्वदा कुत्सितं च एतादृशे भर्तृजीवेनुदादप्रयोजनं नास्ति कृष्णं विहाय देवस्त्रियो निजभर्तृन् विहाय तत्र स्थितम् प्रीणयन्त्येव नित्यम् अतच्च सद्वासोकर्वं्याचार्यमस्ति भर्तास्ते हरिभक्ता यदि स्युरा सां स्त्रीण जन्म साफल्यमे अनेकजन्माजित पुण्य सचय्स्तभर्ता हरिभक्ता भु यो हरिभक्ता न सीताज्य स्वई स्वीयगात्रं भृशं हि स्वभर्तृतं कृष्णरूपं हरिं च स्मृत्वा सम्यग्यदि गात्रं त्यजेयुः तदा नैव ह्यात्म हत्यादिदोशास्त्रीणामेवं निर्णयोऽयं हि शास्त्रे यद्भर्तारो न विजानन्ति विष्णुं तासां सङ्गो नैव कार्यः कदापि अनेकजन्मार्जितपुण्यसञ्जयात् का तद्भर्तारो विष्णुभक्ता भवेयुः कलयुगे दुर्लभा विष्णुभक्ता हरे भक्तिर्दुर्लभा सर्वदैव हरे कथा दुर्लभामर्त्यलोके हरेर्दीक्षा दुर्लभा दुर्लभा च हरे तु निर्णयो दुर्लभो हि हरेर्दास्यै सङ्गमो दुर्लभश्च प्रदक्षिणं दुर्लभं वैमुरारेर्नमस्कारो तद्भक्तानां पालनं च सद्वैष्णवानां दुर्लभं ह्यन्नदानं तन्द्रोक्तपूजा दुर्लभा वैमुरारेर्नामग्रहो दुर्लभश्चव विष्णोः सुवैष्णवानां दुर्लभं हि सद्वैष्णवानां भाषणं दुर्लभं च शालग्रां स्पर्शनं दुर्लभं च सद्वैष्णवानां दर्शनं दुर्लभं हि गोस्पर्शनं दुर्लभं मर्त्यलोके सद्गायनं दुर्लभं सद्गुरुञ्च सद्भाग्या सत्पुत्रका दुर्लभा हि शेषाचलस्तस्य हरेश्च दर्शनं सुदुर्लभं रङ्गनाथस्य वीरे कावेर्या दर्शनं विष्णुपद्याः काञ्जीक्षेत्रे वरदराजस्य सेवा सुदुर्लभा दर्शनं चैव लोके सुदुर्लभम् दर्शनम् रामसेदो सुदुर्लभा मध्वशास्त्रे च शक्तिः भीमादीरे संसित संस्थितस्याभिविष्णुः भी सुदुर्लभम् दर्शनं चाहुरार्याः रेवादीरे संस्थितस्याभिविष्णो गयाक्षेत्रे विष्णुपादस्य जैव तदा भद्रौ संस्थितस्याभिविष्णुः सुदुर्लभं मर्त्यलोके स्थितानां शेषाचले श्रीनिवासाश्रमे च तपस्विनो दुर्लभामर्त्यलोके प्रयागाख्ये माधवस्याभिनित्यं सुदर्शनं दुर्लभं वै नृणां हि ततो नेच्छामि भर्दारं कृष्णादन्यं कदाचन जवमुक्त्वा सापि धरं ययौ शेषाचलं प्रदि कपिलाख्यमहातीर्थे आरुरोह महागिरिं तत्रस्थं श्रीनिवासं च महासदि त्रिदिनं समुपोष्याथ गत्वा पापविनाशनं तत्र स्नात्वा विवाहार्थमेकान्तं प्रयया तस्या उत्तरदिग्भागे क्रोश्य युक्मे महादले कर्तभूते च चचार तप उत्तमं ध्यात्वा नारायणं देवं तत्रासीच्च कुमारिका दिव्यवर्षसहस्रान्ते स्त्रोदं समुपचक्रमे कुमरुवाच तमे मता जिता भर्ताज पुत्रश्च सख्याम पुत्रुर गीया सा मम वलस्नादनंद जन्म सुप्रभो विचार्यप्यसम च ये तैः सर्वे जनिमित्तमात्रधपित्रा दयस्त्वं अदो अधोमुरारेश्च तवैव भार्या भूयासमित्येव तदा व्रतं मे दुःसङ्गमात्रादिसमागमम् न संसिद्धिरित्येव वदान्यमूर्ते त्वद्दूषकाणाम् तव दासवर्यविदूषकाणाम् दर्शनम् चिन्तिदेव गुरुद्रुहां दर्शनं चिन्धिविष्णो भक्तद्रुहां मित्रतां चिन्धिकृष्ण तवद्रुग्भिर्भाषणं चिन्धि देवत्वं सङ्गमं देहि पदारविन्दे श्रीशैलवासाय नमो नमस्ते नमो नमः श्रीनिवासाय दुभ्यं स्वामिन्परावरमेशनिदानमूर्ते कालो महानपि गदश्च निदर्शनं दे अनन्तजर्मार्जितसाधनैश्च त्वद्दर्शनम् स्याच्च च दुर्भुजस्य कथं मम स्यात् प्रभो सर्वैश्च दोषैश्च सुसङ्गतायाः दास्यास्पदायास्तव दासदास्याप्रसीदेवेश जगन्निवास एवं स्तुतस्तथा विष्णुश्रीनिवासोदयानिधीः प्रादुरासीद्वरदराड् भक्त्या तस्या जनार्दनः वरं वरय भद्रं ते वरदोकमिहा गदख हरिणोदीरिदं वाक्यं श्रुत्वा प्राकस्मिदानना उवाच परया भक्त्या श्रीनिवासं जगत्प्रभुम् अहं हि भार्या भूयासं तव माधवसुन्दर इति तस्या वच श्रुत्वा श्रीनिवासोऽब्रवीध्वजः श्रीभगवानुवाच अहङ्कुमारिसुभगे कृष्णजन्मनि भूतले भवामि तव भरुताहम् नात्रकार्या विचारणा एवमुक्ता सुधा कन्या पुरण्यराशिं हरिम् परम् उवाच परमप्रीदा कर्षगद्गदया कृष्ण जन्मन्यहम् पत्नी भूयासं प्रथमेऽहनी संस्कारात् प्रथमं चाकमम् गणाभ्यः समावृणे ओमित्युक्त पुनर्वाक्यमुवाच मधुसूदनः श्रीभगवानुवाच कुमार्या विधृत्तत्वाच मत्प्रदाना च भामिनि तेषाम् मनोभीष्टसिद्धिर्भविष्यदिनसंशयः इति तस्य इति तस्यै वरं दत्त्वा तत्रैवान्तरधीयदा देहं तत्रैव सन्त्यज्य कुमारी चैव पुत्रिका कुम्भकस्य गृहे जाता नीला नाम्ना तु सा स्मृदा कुम्भकस्तु महाभागनन्दशोभस्य शालकः कल्पवाकस्य विज्ञेय पितॄणाम् प्रथमः तस्य गत्वा गृहमहं वृषभाचलवासिनः शिवस्य वरतश्चैव त्वजेह्यत्खगसत्तमभिधिजान्विनिहत्यैव नीला प्राप्ता खगेश्वर ततो नाग्नजिदो राज्ञो गृहे जादा कुमारिका नाग्निजित्कव्यवाहो भूत्कन्या नीलाह्वया भवद तस्याः स्वयम् वरे चाहम् गोवृषान् सप्तसङ्ख्यकान् शिवस्य वरतश्चैव प्यवध्यान् देवमानुषैः बद्ध्वा वृक्षान्नृपाञ्जित्वा प्राप्ता नीला महाकगा कुम्भकस्य सुधा नीलादेहस्ता प्राविशन् भृशम् वयवदो एका वयवतो यस्मात्तस्मात्तत्रैव सा विशद भूमौ द्विधा सम्प्रजादा कुमार्येवन संशयः भद्राजन्मप्रवक्ष्यामि शृणुपक्षीन्द्रसप्तम इति श्रीकारुडे महापुराणे ब्रह्मकाण्डे नीलाविवाहनिर्णयो नामैकोनविंशोऽध्यायः ओ अध्यायं ट्वेण्टि श्रीकृष्ण उवाच या पूर्वसर्गे नलसंज्ञस्य वीन्द्रपुत्री भूत्वा विष्णुपत्नी सकामा प्रदक्षिणं भ्रमणं वै चकार गुणेन भद्रा भद्रसंज्ञा बभूव कन्याभावे संस्थिदां भद्रसंज्ञां पिदानलस्त्वब्रवीत्तां स पश्यन् भद्रे किमर्थं गात्रपीडां करोषि फलं हि तन्नन्दिनि वदस्व भद्रोवाच शृणुत्वं तादनमस्क्रियादेः फलं वक्तुं का समर्था भवेच्छ तथाप्यहं तव वक्ष्यामि ताद यथा शक्रिया शृणु सम्यक् हिदाय सदा हरिमर्मनाधो दयालुरहं हरेस्तव दासानुदासी मां पाहि विष्णोस्तव वन्दे पदे इत्युक्त्वा प्रणामं चपाहरोद्दण्डरूपम् हरे प्रणामं त्विधिकर्तव्यशून्यं व्यर्थं रमेश रमेशमध्वेश सरस्वतीशेत्येवं वदन् प्रणमेद्विष्णुदेवम् यथा प्रसन्नो वन्दना देवदेवस्तथा न तुष्टपूजनात् कर्मतश्च यथा नामस्मरणाद् वन्दनाद्वा पापानियच्छेदु तथा न चान्यैः देहं तु ये पोषयन्त्येवताद हरे प्रणामै शून्यभूतं च पुष्टं तदेवमाहुर्व्यर्थमवेदिताद तत्पोषकाणां नरके दुःखमाहुः यमोपितं तत्र उलूखले तु निधाय करोधी सुखलैकरोति यो वा परं देवदेवस्य विष्णोः तस्यैव पादौ तलयन्त्रे निधाय यमश्च नित्यं प्रकरोदि पिष्टम् येषाम् जिह्वा हरिकृष्णे दि नाम न वक्तिनित्यं व्यर्थभूधां वदन्ति तेषाम् जिह्वा यमलोके यमस्तु निष्कास्य पिष्ठम् प्रकरोदि नित्यम् काशीनिवासेन च किं प्रयोजनं किं वा प्रयागे मरणेन तादा किं वारणाग्रे मरणेन सौख्यं किं वा मकाद्य समनुष्ठितेन समस्ततीर्थेष्ठ्वनेन किं किमधीतशास्त्रेण सुदीक्ष्णबुद्ध्या येषां जिह्वाग्रे हरिनामैव नास्ति येषां गात्रैर्नमनं नापि विष्णोः येषाम् पद्भ्याम् नास्ति हरे प्रदक्षिणम् तेषाम् सर्वम् व्यर्थमाहुर्महान्तः हर्यर्पणाद्रिहितम् नामकस्मात्प्रदक्षिणम् नमनम् चाहुरर्घ्यम् अधो विष्णोर्नमनम् कार्यमेव हरेर्नामस्मरणम् तादकार्यम् जन्मह्येदुर्लभं नश्वरं तु यथा जलस्तं तत्तथैव नो विश्वासं गुरुगात्रे त्वदीये जीवेष्वपि स्व परश्चेदि दादा सद्यकृतं नमनं न द्वितीयं सद्यकृतं स्मरणं न कदा प्राप्स्ये मरणं तन्न जाने न विश्वासं गुरुगात्रे महात्मन् यदच्छ्रुत्वा नलो वीन्द्रपुत्रीवाक्यं सुनिर्मलं नमस्कारं च कृतवान्यथाशक्रियाप्रदक्षिणं साभिप्रदक्षिणं चक्रे नमस्कारं सदा हरेः एवं बहुदिनं कृत्वा ज्ञात्वा नारायणं परम् कलेवरं च तत्याजमरणे हरिचिन्तया वसुदेवस्य भगिन्या उदरे खगा कैकेयीति इतिच नाम्ना सा यस्माद्भद्र गुणायुर्युक्ता भद्रा सा भद्रनामिका तस्यात्मजैश्च कैकेय्यैः पञ्चभिःखसत्तम प्रत्याहृदामिमां भद्रां प्राप्तवान् खगसत्तम वक्ष्येकं मित्रविन्धाया पाह्निग्रहणकारणम् सावधानमना भूत्वा शृणु पक्षीन्द्रसत्तमामित्रविन्दो वाच यान्पूर्वसर्गेऽप्यवृणोन्निकामतो ह्यग्निः शोमान्नामिकामित्रविन्दा मित्रं हरिं प्राप्तु कामा सदैग ततो तत्रोपायं चिन्तयामास देवी हरिप्राप्तौ साधना सन्धितेषु मुख्यं कचिच्चिन्तयामास देवी तेषां मध्ये श्रवणं श्रेष्ठमाहुः पुराणानां सात्विकानां सदापि विष्णोरुत्कर्षो वर्तते यत्र वायोस्तदोत्कर्षः सज्जनानां पुराणे श्राद्धं सदा विष्णुबुद्ध्या सदैव नान्यच्छ्राव्यं साधनं तत्र चैव यस्मिन् दिने श्रवणं नास्ति विष्णोस्तेषां जन्मव्यर्थमाहुः कथायाम् स्नानजभपञ्चयज्ञम् व्रतम् च यिष्ठापूर्ते कृत्रचान्द्रोच चा दत्तम् सर्वम् व्यर्थम् वैष्णवानाम् च दीक्षाकथाम् विना सम्यगनुष्ठिताम् वै यैर्नश्रुतम् भागवतम् पुराणम् सम् प्रदायैर्गुरुभिप्सं युतैश्च याैर्णश्रुतम् भागवतम् पुराणम् यार्णश्रुतम् ब्रह्मकाण्डम् पुराणम् तेषाम् जन्मव्यर्थमाहुर्मम हान्दस्तस्माच्छ्राव्याहरिवार्ता सदैव न यत्र गोविन्दकथामहानदी न यत्र नारायणपादसंश्रयः न यत्र विष्णोः सततं वचोऽस्ति न संवसेत्तत्क्षणमात्रं कथञ्चिद यस्मिन् ग्रामे भागवतं न शास्त्रं न वर्धते भागवदारसज्ञाः यस्मिन् गृहे नास्ति गीतार्थसारः यस्मिन् ग्रामे नाम सहस्रकं वा तयोरसज्ञा यत्र न सन्धि तत्र न संवस्येत्क्षणमात्रं कथञ्चिद यस्मिन् दिने दिव्यकथा जविष्णोर्न वास्ति जन्तोस्तस्य चायुर्वृधैव गर्भे गदे नात्र विचार्यमस्ति तन्मन्ये दुर्लभं कर्णं कल्पैर्भूषितं सुन्दरं च न सुन्दरं चाहुरार्यारसज्ञाः चा विष्णोकथाघ्याभरणैश्च युक्तं तदेव कर्णं सुन्दरं चाहुरार्याः तस्मात् सदा भागवधार्थसारं शृण्वन्ति ये सददं वाचयन्ति तेषाञ्जन्म स्वस्तमाहुर्महान्तो महद्फलं चास्ति तथैव तेषाम् सोष्णीषकञ्चुकयुक्ताश्च हरेकथां वै शृण्वन्ति च पठन्ति सदैवमर्त्याः सर्वेऽपि ते लोके नवै वै शिश्रे चोदरे चैव सक्ताः ये दाक्षिण्यादर्थलोभाद्वदन्ति सदा पुराणं भगवत्तत्त्वसारं प्रच्छादयन्ते तत्त्वगोप्यानियेदु तेषां गतिः सूर्यसूनुः सदैव ये धर्मकाण्डे धर्मकाण्डे सदैव उत्पादयन्ते सुरुचिं तत्र नित्यं मौल्येन ये कथये युः पुराणं तेषां गतिसूर्यः सुनः सदैव मौल्येन भागवतं पुराणं शृण्वन्ति वै हरिशास्त्रार्थतत्त्वम् मौल्येन वेदाध्ययनं प्रगुर्वदे तेषां गतिसूर्यसूनुः सदैव प्राप्त धनेन ये तु ह्यत्र योग्याः सदैव धनार्जने ये त्वदितृष्णाभियुक्तास्तेषां न वै भागवतेऽधिकारः मत्वा लोके हरिरेवति नित्यमन्तर्यामि नास्ति तदन्य ईष्यः एवं सदा ये योगक्षेमं बिभ्रूयाद्विष्णुरेषाम् स ैष्णवानामशुभं नास्ति नास्ति प्रदृश्यते संशयज्ञानरूपाद कर्मानुसारेण हरिर्ददादिफलं शुभा नाम चैव अधस्तदर्थं नैव यत्नं च कुर्याद्धनार्थं वै हरितत्वे च कुर्याद अधस्नात्वा दिव्यमन्त्रम् जित्वा विसर्जयित्वा विष्णुनिर्माल्यगन्धम् शुचिर्भूत्वा भागवतम् पुराणम् संस्रावयेत्सर्ववेत्ताविनित्यम् कर्मानुसारेण धनार्जनम् च वेदार्जनम् शास्त्रसमार्जनम् च भविष्यदि श्रवणम् चापि विष्णोरत्यादराश्रवणम् दुर्कडम् च अत्यादराद्भागवतस्य अत्यादरा सारमास्वादयेद्दुर्कडम् मर्त्यलोके आस्वाद्य तद्भागवतम् पुराणमानन्दबाष्पैर्युक्तदा दुर्कडा च श्रुत्वा तत्त्वानाम् निर्णयम् धारणम् च सुदुर्घटम् चाहुरार्याः समस्थम् श्रुत्वा तत्त्वानाम् धारणानन्तरम् च कामक्रुद्धोर्धारणम् कामक्रुधोर्जारणम् दुर्घटम् च श्रुत्वा तत्त्वानाम् धारणानं तरं तथा दुर्घटम् सङ्गदम् च श्रुत्वा तत्त्वानाम् धारणानन्तरम् च कामक्रुद्धोर्जारणम् दुर्घटम् च ये ते दोषाज्ञानपूतानपीह कुर्वन्ति सन्देहयुधान् सदैव अदो ह्यहंश्रवणम् सत्कथाया सदा करिष्येणात्र विचार्यमस्ति तेनाप्यसंहरिनामाभिवाञ्चा निश्चित्य चित्तं श्रवणे वै चकार आदेहमेवं श्रवणं च कृत्वात्यकृवा देहं भूदले सम्प्रजाता निवस्तुं वसुदेवस्य भगिन्या उदरेखग सुमित्रा संज्ञकायां च जादा वै मित्रविन्दिका श्रवणेन हरिमित्रं प्राप्ता सा मित्रविन्दिका अदः सा मित्रविन्द यदि संज्ञया सम्बभूवः स्वयंवरे मित्रविन्दा राज्ञां मध्ये ममांसे विसृजन्मालां तां गृहीत्वा खगेश्वर विधूय नृपदीन् सर्वान् पुरीं प्राप्ताखगेश्वर इति श्रीगारुडे महापुराणे ब्रह्मकाण्डे भद्राकृदभगवत्पदित्वप्रापकतपश्चार्यादि निरूपणं नाम विंशोऽध्यायः ओम् अध्यायम् 21 वन् श्रीकृष्ण उवाच कालिन्द्या चोत्पत्तिं प्रवक्ष्यामि कबेश्वर विभस्वान्नाम सूर्यो भक्तस्य पुत्री व्यजायत कालिन्दी संज्ञ कावीन्द्र यमुना यानुजा स्मृता कृष्ण पत्नीत्वकामेन चचार तप उत्तमम् तप आलोचनम् प्रोक्तम् तत्त्वानां च विनिर्णयः पूर्वार्जितानां पापानामनुतापस्तपः स्मृतं प्रायो नाम तपप्रोक्तम् चित्तनिग्रह प्रायचित्तमिति प्रोक्तं न दुःक्षौरं अनुतापयुदं अनुतापयुतं भूतं तच्छृणुत्वं खगेश्वर पूर्वं न जप्तं दिव्यमन्त्रं मुकुन्दतप्तं सदा क्लेशदावानलेन न वैस्मृतं हरिना मामृतं च सदा स्मृतं हरिदोषादिकं च न दुस्मृतं हरितत्त्वामृतं च सम्यक् श्रुतं लोलवार्तादिकं च न पूजितं हरिपादारविन्दं सुपूजिता पुत्रमित्रादिकश्च हरिपादारविन्दं सुवन्दिदो मित्रपादः न दृष्टं वै धूप धूम्रैरुपेदं हरेर्वक्रं कुन्दलैः संवृतं च पुत्रादिगं लालितं वै मुकुन्द न लालितं तव वक्रं मुरारे भूषणै पुत्रमित्रं न लालितं सर्वपापहारि न भोक्तं वै नैर वेद्य हरिनैरवेद्यशेषलये षड्रसान्नं च भुक्तम् सुषु सुपुष्पगन्धानार्पिता ते मुरारे समर्पिता पुत्रमित्रादिकेभ्यः सन्तप्तोऽहम् पुत्रमित्रादिकेषु कदा द्रक्ष्ये तव वक्त्रं मुकुन्द वैष्णवान्नैः शिगुशिगृशादिकैश्च ह्यनर्पिताह्नैश्च तथाप्यसंस्कृतैः तथाप्यभक्ष्यैरसनाजदग्धा कदा द्रक्ष्ये तव वक्त्रं मुकुन्द अष्टाक्षरी पूजया दिव्यतीर्थैर्विष्णोः पुराभ्रामितैः शङ्खतीर्थैः नपाविदम् अच्छरीरं मुरारे कदा द्रक्ष्ये तव वक्त्रं मुकुन्द अनर्पितैर्गन्धपुष्पादिकैश्च अनर्पितैर्भूषणैर्वस्त्रजातैः अवैष्णवानाम् दिग्धगन्धादिदोषायैर्गात्रम् दग्धम् कदा ह्युद्धरिष्ये मुकुन्त दग्धौ च पादौ मम वासुदेव न गच्छन्तौ क्षेत्रपथं हरेश्च नेत्रे जदग्धे मम सर्वदापि नालोकितं तव देवप्रतीकम् दग्धौ च हस्तौ मम वासुदेव न पूजितं तव विष्णोः प्रदीतं मया कृतं मुरारे कदा द्रक्ष्ये तव वक्रं मुकुन्द मदीयदोषान् गणयन्नपूर्ण दयाङ्कुरु त्वं शुद्धदास्यान्मुकुन्द यावन्दिलोमानि मदीयगात्रे सन्धिप्रभो सर्वदोर्षर्विदूर तावन्दिपानि मदीयगात्रे कदा द्रक्ष्ये तव वक्त्रं मुकुन्त अनन्तदेहे पदिपुत्रैर्गृहैश्च मित्रैर्धनैः पश्यु भृत्यादिकैश्च सुखं नाप्तं ह्यपुमात्रं मुकुन्त सेवामुक्ता तव देवस्य विष्णोः इतः परं पुत्रमित्रादिकं यास्येनाहं तव दासी भवामि ये ये ब्रूयुः पुत्रमित्रादिकैश्च सम्यक् सुखं जायते मर्त्यलोके तेषामस्ये मूत्रविष्टादिकम् च सम्यक् सदा पतितम् चेदि जाने मित्रादीनाम् यत्कृतम् द्रव्यजातम् वृथा च जातम् सद्वैष्णवानाम् यत्कृतम् द्रव्यजादं। हरिप्राप्ते कारणं स्यात् सदैव एतादृशं तत्तु जादम् मुकुन्द अलं ह्यलं तेन दुःखं च भुक्तम् सङ्गम् दत्तात् सज्जनानां सदा त्वम् विना च त्वम् दुर्जनानां च सङ्गाद सङ्गै सदा दुर्जनानाम् मुरारे गात्रम् दग्धं न विरागेण युक्तम् एतादृशाहं कां गतिं वा मुकुन्दयास्येन जाने दययामाञ्च पाहि एतादृश्यो ह्यनुतापखगेन्द्रप्रायच्छित्तं न च क्षौरादिकं च भानोकन्या ह्यनुतापं च कृत्वा विचारयामास हरे सुतत्वम् सर्वोत्तमो हरिरेकः सदैव यदपूर्णः सर्वगुणैस्तदश्च सृष्टौ यस्माज्जयदे विश्वजादमदो हरिः सर्वगुणैश्च पूर्णः यो देवानामाद्य अकार एव यदो ब्रह्माद्यानैव पूर्णाः समस्ताः लक्ष्मीप्रसादाचिरपुण्येन जादो यथा योग्यं पूर्णगुणो विरिञ्जः न लक्ष्मीवद्गुणपूर्णो विरिञ्जो न विष्णुवद्गुणपूर्णारमापि न वायुवद्भारती चापि पूर्णा न शेषवद्वारुणी चापि पूर्णा न वैरुद्रवत्पार्वती पूर्णरूपा ्यन्येप्येवम् नैव पूर्णा सदैव आलोचनामेवमेषा हि कृत्वा तपश्चक्रे यमुनायाश्च तदा चाकम् यमुनायाश्च तीरम् पार्थेन सागं मृगयाङ्गधःख दृष्ट्वा च ताम् तत्र तपश्चरन्तीं तदा ब्रुवं सखायं च पार्थम् हे पार्थशीघ्रं व्रजकन्यासमीपं त्वम् पृच्छ कस्मादत्र तपः करोषि एवम् प्रोक्तस्तत्समीपं स गत्वा पृष्ट्वा चैदत्कारणं शीघ्रमेव आगत्य माम वदत् फाल्गुनोऽयम् सर्वं वृत्तान्तं त्वसौ मत्समीपे तदस्त्वकं सुमुहूर्ते च तस्य पाणिग्रहन् कृतवांस्तत्र सम्यक् तस्याश्च तापाः सन्ततं मद्विचारात् प्रसन्नोऽहं सुप्रसन्नः पूर्णानन्दे रममाणास्य नित्यम् तया स्यात् खगेन्द्र मया विवाहोऽनुग्रहार्थम् हि तस्य अङ्गीकृतो न तु सौख्याय वीन्द्र तदा वक्ष्ये लक्ष्मणायाश्च रूपम् पाणिग्राहे करणम् चापि वीन्द्र शृणुष्व तत्तव वक्ष्यामि गोप्यं सच्चिष्य के नास्ति गोप्यं गुरोश्च इति श्रीगारुडे महापुराणे ब्रह्मकाण्डे भगवदकालिन्द्याविवाहे हेतुनिरूपणं नामैकविंशोऽध्यायः ओ